ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता दत्त्वा क्रूराय सुतनुं तदा सङ्कर्षणद्वितीयेना ज्ञातिकार्यं मया कृतम् हतौ कंससुनामानौ मया रामेण चाप्युता भये तु समतिक्रान्ते जरासन्धे समुद्यते मन्त्रोऽयं मन्त्रितो राजन् कुलैरष्टादशावरैः अनारभन्तो निघ्नन्तो महास्त्रैषत् ृघातिभिः न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम् तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ नामभ्यां नाम हं षडिम्भकावशस्त्रनिधनावुभौ ुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान् त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः न हि केवलमस्माकं पार्थिवाः तथैव बुद्धिर बुद्धिर्बुद्धिमतां वरा अथ हंस इति ख्यातः कश्चिदासीन्महान्द्रपः रामेण सहतस्तत्र सङ्ग्रामेष्टादशावरे हतो हंस इति प्रोक् मथ केनापि भारता तच्छ्रुत्वा डिम्भको राजन् यमुनाम्भस्य मज्जत विनाहंसेनलोकेऽस्मिन्नाहं जीवितुमुत्सहे इत्येतां मतिमास्थाय डिम्भको निधनं गतः तथा तुडिम्भकं श्रुत्वाहंसः परपुरञ्जयः प्रपेदेयमुनामेव सोऽपि तस्यां न्यमज्जत तौ स राजा जरासन्धः श्रुत्वा च गतौ पुरं शून्येन मनसा प्रययौ भरतर्षभा ततो वयम वयममित्रघ्ना तस्मिन्प्रतिगते नृपे पुनरानन्दिनः सर्वे मथुरायां वसामहे यदा त्वभ्येत्यपितरं सा वैराजीवलोचना कंसभार्या जरासन्धं दुहितामागधं नृपं चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता पतिघ्नं मे ततो वयं महाराजा तं मन्त्रं पूर्वमन्त्रितं संस्मरन्तो विमनसो व्यपयाता नराधिपृथक्त्वेन महाराज संक्षिप्य महतीं श्रियम् पलायामोभयात् तस्या स सुतज्ञातिबान्धवाः इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभितां ततो निवेशं तस्यां च कृतवन्तो वयं नृपा तथैव दुर्गसंस्कारं देवैरपि दुरासदम् स्त्रियोऽपि यस्यां